ञ्जज्ञे अज्ञरस्मद्वितीयम् परिजातवेदाः तृतीयमप्सुर्मणाय श्रमिन्धानन्तरते स्वाधीः विग्माते अग्ने त्रेता प्रयाणि विद्माते सद्मनिभृतम् पुत्रा विग्माते नाम परमम् गुहायद्धिमातमुत्तरञ्जकहार्यगन्धा समुद्रे त्वा नृमना अप्सन्तम् दक्षारीधे दिवो अग्नबोधन् श्रीये त्वारचितस्थिवालम् समृतस्थ्यो नो महिषा हरिन्वन् अक्रन्दनग्निस्थनैर्निवद्योः क्षामारेहद्वीरुधः समञ्जन् सद्योदज्ञानोभिः विद्धो अर्घ्यदा लोदसे उषित्पावको अहतिस्तु मेधामर्थेष्मग्निरमृतो निधाये नियर्ति धूमऋषम्बरिभृच्छुक्रेण शोचिताब्द्यामिनक्षते विश्वस्य केतर्भुवनस्य गर्भारोदसी अवृणाज्जायमानः वीणुञ्चिद्रिमभिनत्परायञ्जनायनग्निमैरम् तपम् श्रीणामुदारो धरुणो रयीणाम् मनीषाणाम् प्रार्पणः सोम गोपाः वसोः सो न सहसो अप्सुराजाविभात्यग्रमुषता विधानः शस्ते अद्य गृणवद्भद्रशो ये कूपम् देव वस्यो अर्चाभिर्दृन्नम् देवभक्तनिष्ठा आरम्भजतौ सर्वशेष्पर्णमुखबुग्धा अग्नापभाविजातेन विरततुजनिः वामर्णे निजमानाद्यो न विश्वामसूलितुभिरेवार्याणि सजासमर्ग्रविणमिच्छमाना प्रजङ्गोमन्तमुदितो ौर्व्या व्यद्यौ दुर्मरिणमायुश्रियेणः अर्गनवतोऽन्त्यौर्जनयत्सुदेताः अन्नपदेऽन्नस्य नो धेत्य न भीमस्य दुष्मिणः प्रदातारन्तारिणवोर्जम् नो धेद्विपदे च दुष्पदे भूत्वा विष्मे दे देवाग्ने भरन् वृत्तिभिः स नाभव शिवदमः प्रतीगो विभावम्भ्यर्थानुभ्यर्थाहि प्रजाः समिधान्दुवश्चन हृदयर्बोधयतात्मनभव्याजबोतना भरतस्य जन्मे अभयः पूर्वम् प्रतमातुरस्थौ नेतामो नः आपो देवे प्रतिग्रन्थे न बहस्मैतस्यो ने गुणध्वम् सुरताव लोके तस्मै न मन्दाञ्जनयस्तु पत्नेः माके मपुत्रम् अप्सर्गे <Sess> <Sess> सिष्टवसौषधेण्यते गर्भे जान सञ्जायते पुनः गर्भो अस्योषधीनाम् गर्भो वनस्पतीनाम् गर्भो विश्वस्य भूतस्याग्ने गर्भो अपामसे सद्यभस्मनायोनिपश्च पृथिवीमग्ने स संसज्यमातृभिस्पञ्जोतिष्मान् पुनरासदः पुनराध्यमपश्च पृथिवीमग्ने शेषे मातुर्यसोपस्थेन्दरस्यागो शिवतमः पुनरोवर्तश्च पुनरग्नयुषायुषा पुनन्दाभितः स हैयानिवर्तस्वाग्ने बिम्बस्वधारिणा विश्वप् विश्वतस्तरे पुनस्त्वा नित्यानुद्रावधवस्तविन्धनाम् पुनर्ब्रह्माणावसुमेधयज्ञैः घृतेन तनवर्धयः सन्ते न मानस्य गामाः नो अस्य वजतो यविष्ठमगम्भिक्षस्य प्रभृतस्य स्वधावः हीयऋत्वामरुत्व गृणादिभन्दावृत्ते धनुवन्दे अग्ने सबोधिरो निर्मधवारुदावावधुपरिः ेषागुङ् अपेतवेशत्पदातोस्थपुराणाय दवी च लोतराः अदायमोऽपदानम् पृथिव्या अग्रणिमम् पितरो लोकमस्मै अग्ने भस्मास्यग् पुरेषपतिधम् ज्ञानमतिकामधरणम् वयिते कामधरणम् भोजात् संयावः प्रयास्तुहस्तम् प्रया हृदयाणिवः आत्मा अस्तःस्ंज स्न हो अग्नेस्वींद्रस्तम देश देवस आहसा जम सूथवाजेद अग्न दिवर्ण मच्छा सेचाषाए परस्ताद्रोजरे भौर्यस्तयाश्चावस्तादुपतिष्ठन्तापः अग्ने यदिविवर्च्च पृथिव्यायष्वप्सुवायनान्तरिक्षमस्स भानुवन्तो निरक्षाः पुरेश्यादो अग्निन प्रावणेभिः सजोडदः विटदन्ताकम् हव्यमाहुतमनमेवायुषो महेः इडामग्ने पुरुतगुम् तगुम् तलिङ्गोश्वस्तमगुम् हवमानाय साध स्यान्न स्वो नस्तनोग्ने साते सुपतिर्भो त्वस्मे अयम् ते यो निर्नित्ययो यतो जातो अनोचः सञ्जानन्नग्नोहा चिसिया एवदयाङ्गिरस्पद्ध्रुवादीतया एवदयाङ्गिरस्पद्ध्रुवादीतलोकम् प्रणच्छद्रम् प्रणासोजित शिवात्म इग्नेपतिरस्मिनयो नावसेणतन् ताः सौदो हरस्वमग्नश्रेणन्ति पृष्टयः जन्मन् देवानाम् विदः दिवः म् सङ्कल्पे धातुम् सम्प्रणौरो जष्णो मनस्यमानौ इषमोर्जमपितम् वदानो सम्भावनाकरम् अग्ने पुरेश्यादिपाभवात्पन्नः इषमोर्जयजमाना नेहि पुरेष्यत्वमग्नेरहिमान् पुष्मागम्पे शिवा कृत्वादिनः सर्वा स्वाय्योनसदः भवतम् नस्तमनसौ समो तदापरेपसौ मारिज्ञकौ हिकम् सृष्टम् मारिपतिञ्जातवेदसौ शिवो भवनमज्ञनः मातेव पुत्रम् पृथिवी पुरेक्ष्यमग्निज्ञस्वेगो नापभारुखाम् विश्वैरगेवैरतुभिः संविधानः प्रजापतिर्विश्व माविमुञ्चतु जगदस्य पारेण शुक्रम् जोनिरजारिण तन्नः परिणुरोणेवेश्वानरस्मा नमस्तु ते निर्द्रे विश्वरूपे लक्ष्मजम् विजताबन्धमेतम् यमे रक्तम्यासं विधानाम् तमन्नागमधिरोहयेमम् यत्ते देवे निर्दिराभवन्धनामग्रे वा स्वविचर्जम् एतद्वैश्याम्यायगो न्यप्रवृत्तः यस्याः ते अस्या क्रूर आसञ्जहाम् बन्धानामवसर्जनाय भो विरजित्वा जनाविदम् निरदित्वाहम् परिवेद विश्वतः असंवन्तमहितमानमिच्छस्तेन स्वेत्या अन्यमस्पतिक्षपादयत्या नमो देविनिर्जेतुभ्यमस्तु दे हन्न किम्बन्दमानप्येव पुत्रम् सगेवनः सवेः प्रतिसोदे चष्टे निवेशनः सङ्गमनो वसूनाम् विश्वारूपाभिचष्टे रजीभिः देवयि पसपिता सत्यधर्मेन्द्रवनस्थौ कमले पथीणाम् संवरत्रादधातु नैराहावाङ्कणोदरा चिन्तामहावटमुद्रिणम् वयम् विश्वाहातः समक्षितम् निष्कृताः सुन्ते अक्षितम् श्रीरः युञ्जन्ति कवयो युगा विकम्बते पृथक् धीरादेवेणुकम् मया कृते नो भव लाङ्कनम् पवीरवगुम् सुसेवकुम् सुमतित्सरो, कामम् असर्व्यम् च पीवरे प्रस्थावद्रसवाहनम् सुनन्नः भूमिकुम् शुनम् केना च अभिनन्तुमाहान् शुनम् पद्यन्यामसु नापयोस्वनादीरा सुनमस्मासु धत्तम् कामसु धे दुःखमित्राय वरुणाय इन्द्रायाग्नय कोष्ठकोषधेभ्यः प्रजाभ्यः धृतेन सेतामधुनातमक्ता विश्वैर्देवैरनुवता वरुद्धे ओर्जस्पति पयसा बिन्वमाधास्मान्सीते पयसाभ्या महृत्सा या जाता कोषधयो देवेभ्यस्तृगमम् दे दे दे पुरा मन्दान्यब्रूणा बहवं सतम् धामानि शतम् वा अम्बधामायधात्रमुदमोधः अथा दलक्रन्तो यूयमितम् कृता पुष्पावदे प्रसोपदे फलिणीरफलाहुदा अश्वायिव दलित्वरेर्वेरुधः पालयिष्णवः ओषधेरिवादस्तद्वो देवेरुपब्रमे न पाकुम् च विढ्णनेनाः अश्वर्थे वा विदनम् वर्णेव बदरे कृता किलादयत्सलवधोरुषणम् यदाहम् वाजयन्निवा वोढधेरहस्तादधे आत्मा लक्ष्मश्च न श्रीपुराजीवगृभो यथा यदोषधेः सङ्गच्छन्ते राजानः समितानिव अभिप्रस्तमुच्यते अभिजग्रक्षोहामेवतरः निष्कृतिर्नामो माताथा यूयजग्रस्थसङ्गतेः ष्कदा अन्यावो अन्यामवत्मन्यान्यस्या उभावता ताः सर्वावोषधयः संविधानादिवम् मे प्रावतावचः उच्छष्णावोषधीनाङ्गावो गोष्ठाधिवेदते धनगम् करिष्यन्ति नामात्मानन्तवपूरुढाः परिष्ठास्तेन व्रजवप्रमुः ओढदयः प्राजुच्चपर्यक्किञ्च तनुभागुम् नमानैयाः त्रेदुःपरः परोः तास्त्रैलक्ष्मम् विबाधन्ता मुग्रो मध्यमचेरिव साकैलक्ष्मप्रपदशेन येविना साकम्वातस्य ये अध्याज्ञा साकन्नश्च निशाकया अश्वापतेगम् सोमवते मोर्जयन्ते मुदोचसम् आविक्षि सर्वा वोढधेरस्माष्टरादरे याः फलिनेर्याफला पुष्पायाष्टपुष्पिणेः बृहस्पतिः पदोतास्तानामुञ्चन्तः या, या वोढदयस्वाग्ने प्रविष्टा पृथिवे मनो तमस्युत्तमा प्रणो वा तवे अपपदन्तेरपदन्ति परे ेवमश्नवामहेन दरिक्ष्यादिपोरुडः याश्चैमुखर्मन्ति याश्च दूरम् परागताः विगतङ्गर्गलाः सर्वा अस्मै सेशजम् मामोर्गःखनिता यत्नेताहम् खनामिवह निवचस्माकम् सर्वमस्मनादूरम् ओर्वजः सम्पदन्ते सोमेन सह राज्ञाः तस्मै धनादिब्राह्मणस्तदौराजम् पारयामसि बालाहिताय पृथिव्याय मादिवकम् सद्धर्मा जान यश्चापश्चन्द्राहतेर्जान यस्मै देवाय हविषा विधेम अभ्यावर्तस्त्वपृथिवीण्येन वयथा सह अभान्तेरग्निर्हितोपसम्पदो अर्णेयत्ते शुक्रयच्छन्द्रयत्पूतञ्यद्विज्ञम् तद्देवेभ्यो भरामतेषमोद्यमहमित आदरस्य अमृतस्तयोः आनकोषमिदर्कोषेदधामिति आज्ञेतवश्रभोमयो बहित्ययो विभावतो बृहद्भावोऽ यद्यन्नपथयस्व जन्तुभिरस्मे आयो अमर्त्या सदलशदस्य सत्यभिर्मन्दस्पथेतुक्षितःभूरिवेदरश्चित्तमजाताः पावकवर्जा शुक्रवर्चा अनोमवर्चा उदयरिभा पुत्रः पितरा वितरन् न पापस्य भेरुणक्षिदोदधि ज्ञगम् सम्नाय दे गुरोजनाः सप्रसस्तवन्तानुषायुगा निष्कर्तारमद्भरस्य प्रजयन्तम् प्रणक्षिधा नयगौरयम्भजितया देवदया यस्पद्भ्यमासीदता आप््यायस्वतमे विश्वदस्वमवृष्ण्यम् वाजस्व चम् कथे सन्तेपजागुंसितमुयम् तु वाजास्वम् वृष्ण्यान्नभिमानिः आप्मानो अमृताय सोमधिविश्ववायश्च उत्तमादिष्मा अभ्यस्थाद्यष्मा प्रतनाराधेश्वर्याः तनु बृहस्पतिः समितादन्वाहभूषाबाधात् सुकृतस्य लोके लक्षःपथमम् जायमानबुद्धमुद्राकृतवापुरीढा हेनस्य पक्षाः ऋणस्य बाहो वस्तुवञ्जनिपत अर्वान् अपारम् पृष्ठमधिके समुद्रमभिदः पिण्नम् ब्रह्मरिज्ञानम् प्रथमम् पुरस्ताग् सुनिवह सबमानस्य विष्ठा तदश्चयो निश्च हिरण्यगर्भस्तमवर्तनाग्रेदश्च जातः पथिरेखासीत् सदाधारपृथिवेन्द्यामुदयमाय कस्मै देवाय हमिषाभिधेम दक्षश्च स्कन्दपृथिवेम्याम्यञ्चयोमयश्च भ्यः सर्पेभ्यो नमः हे गौरोचने जिवो जय वासूर्यस्य रश्मिषु हे कामत्सुतभ्यः सर्पेभ्यो नमः याय न वो जादुधानाय वामनश्व भ्यस्तर्पेभ्यो नमः ध्रुवाभिधरुणास्तदा विश्वकर्मणासु कदा आत्मा समुद्रमुद्पथेन्मासु पर्णोऽप्यसमाना पृथिवेन्द्रगो प्रजापरिष्पादानय पृथिव्याः पृष्ठे वृहस्पतिम् पृथस्पते पृथिव्यतिभोरदिभोस्य विश्वधाया विश्वस्य भुवनस्य धर्ते ध्रुवेधुवेम् धृगं हमधुवेम् विश्वस्मै प्राणाय प्राणाय ज्ञानाय दानाय प्रतिष्ठाय धरित्राया तस्यान्तमेन पदयाङ्गध्रुवाभि काण्डाः काण्डात् प्ररोहन्ते परुढः परुढः परे एवानो दोर्वे प्रथमसहस्रेण शतेन च यासेन प्रथनोषसहस्रेण विरोहति तस्याेत्यम् पठाढा सहस्वारादे सहस्वाराध्ये यदः सहस्वदनात् सहस्वपदन्यदः सहस्रवीर्यासिता निषिन्धवः माद्भेर्न्न सन्तोषे मधुरक्तपतोधि मधुमपाजः मधुर्दौरस्तु नः पिता मधुवान् नवनश्वनिर्मधुमागुम् अस्तु सौर्यः माद्भेर्गावो भवन्तु नः महेद्याः पृथिवे च नैव्यम् विमिक्षताम् विवृताम् न परेमभिः तद्विष्णाः परमम् पदयम् तदा पश्यन्ति सौरजः दिवेव चक्षुरातम् ध्रुवादिपृथिविधास्वपदम् जनः श्रुतादेवेऽभिनमृते नागाः यास्ते अज्ञेतोर्गे वितो हन्वन्ति रश्मिभिः ताभिः सर्वाभिरुजयनायनस्कृतिः दे यावो देवासौरुगोष्वस्मे भी इन्द्राग्नेताभिः सर्वाभिर्दन्दो धत्त बृहस्पते विराज्योतिरधारयत् सम्राट्योतिरधारयत् स्वराज्योतिरधारयत् अग्ने दे, युक्ष्वाभिरवाश्वासो देव साधवः अहम् वहन् जाशवः युक्ष्वाहिभूतभागुम् दर्वागुम् अग्नेरथेरिव निभोता भोर्यस्तदः दर्शश्च स्कन्दपथिरेन्दम् दप्सञ्जहोप्तम् विश्वश्च भुवनस्य मादिनमग्नेष्वानश्च अर्घ्यज्योतिराज्योतिष्मान् वृत्मोवर्चसावर्चस्वान् रेतस्य धारा अभिजाकजे मे हिरण्ययो वेदोभ्यासाम् अस्मिन् नामधिकृजन्नास्ते मधुदेवताभ्यः स्यापरे हरिणः सप्ततीरे गर्भम् पयसागमञ्जन् सहस्रस्य प्रतिमाम् विश्वरूपम् परिवृद्धिहरता माभिवृक्षश्रतायुषङ्कृयमानः इमम् वाहिलम् पशुनागुम् दहस्राक्षमेधा दीयमानः महिमारण्यमनुजेतिनामितेन जिह्वानस्तनुवानुषीड पादस्यर्धाजम् वरुणस्य नाभिमस्वम् जग्ज्ञानकम् सरिलस्य मध्ये शिशुन्नदीनाकम् हरिमद्रिमग्धमर्णे वाहिकम् चेः परमे व्योमन् इमम् वाहिकम् सेरेखरम् पशूनाङ्कनिकलम् वाजिनम् वाजिनेन गौरवारण्यमनुचेतिनामितेन जिह्वानस्तनुवानुषीड अजस्रविन्दमरुषम्भुरण्णमग्निवेशकर्मम् वाहिमगुम् समुद्रगुम् सदधानमुत्सम् यच्यमानम् भुवनस्य मध्ये नामञ्जनायः परमे व्योहन् गमयमारण्यमेन रोहाणश्च नाभिमविञ्जज्ञानागौरजनः परस्मात् महेतुम् साहस्रे न तु मायामग्ने माहिन्धेः परमे व्यामन् इमामोहायम् वरुणश्चमाया ध्वजम् वशूनाम् धिमनाञ्जनुष्पदाम् त्वष्टप्रजानाम् प्रथमञ्जरेन्द्रमग्ने माहिकुञ्झेः परमे व्यामन् तो ग्नेहस्तपतोदः शोधाः पृथिव्या उदवा दिवः परि येन प्रजाविश्वकम्भाव्यानिक्तमग्नेहेन परिदेव अजाज्ञकम् भा सा वा अपश्यन्त्य नितानमग्नेः <Sanye>, या लोहमायन् ममेऽध्याहस्तया देव देवतामग्रायन् शरभामृतेन जन्भाणस्तनुबोनिषिन इन्द्राग्रे लोचना निवपरिवाजेषु जी जी भूषसः सर्वाञ्च विप्रवेर्यम् शिरसद्वृत्रबुतसनो निवाजमिन्द्रायो अर्णेषु इह्यन्तापथव्यस्य भूरे सहस्तमासहसावाजयन्ता प्रजलेभ्यः प्रदनाहवे प्रपथिव्यादेवश्च प्रसन्धभ्यः प्रगिरेभ्यो महित्वा प्रेन्द्राग् मे विश्वाभुवना कन्या मरुदायस्य शिक्षणे पाधा दिवो विवाहः सर्वगोपादमोजनः यज्ञैर्वा यज्ञवाहतो विप्रस्य वा मरुदश्रुमृताहवम् श्रियते क्रह्नुभिः सम्मिविक्षेते रस्तुभिस्तरक्मभिस्तुखादयः एवा श्रीमन्तलिक्ष्मिणाभीरवभिद्रे प्रियस्य मारुतस्य धाम्नः अवतेढेण उदुत्तमम् कया नश्चित्राभुवजूति सदा मृदस्सखा कयानिष्प्रयावृता को अर्जयम् ते फलिकार्षस्य सुमीवतो भाविनो दुर्हृणायोन् आसन्निषोन्हृत्सो मो भूजेषाम् भर्त्याम् सन्ना भवन्तु वाजे वाजे आप्सद्मे सिष्टमसौषधीर्णरुध्ये गर्भे सञ्जायसे पुनः वृषातो मद्विवागुम् अतिविषादेव धर्माणिदधिरे इमम् मे भरुणतत्त्वायामित्तम्ना अग्ने सत्त्वन्नो अग्ने ओ पान् प्रेमन् सादयाम यपान् त्वन् सादयाम यपान् त्वा भस्मन् सादयाम यपान् त्वा ज्योतिषदादयाम यपान् त्वादिने चादयाम् यन्नवे सदनेसि दशमुद्रे सदनेसि दशदिने सदनेसि तापान् क्षडयसि दापाकंसधिजसि तापान् त्वा सदने सादयाम्यपान् त्वादश्चेदादयाम्यपान् त्वा न्त्वाजोनौ सादयाम्यमान् त्वापासारादयामि का यत्रे छन्दत्रष्टुप्च्छन्दो जगते छन्दो द्रष्टुच्छन्दः पन्तच्छन्दः अयम् पुरोभवस्तस्य प्राणोभौ वा यनोपसन्तः प्राणायनो गायत्री वा हन्तेकायत्र्यैकायत्रङ्गायत्रात् पाकुंशु पाकंशास्त्रिवत्तवतो रसन्तरगौरसन्तरात्मधिष्ठ प्रजापतिगृहीतरा त्वया प्राणम् गृह्णामि प्रजाभ्योऽयम् दक्षिणा विश्वकर्मा तस्य मनो वैश्वकर्मणम् ग्रहेष्म्रष्टभ्रयेष्मे द्रष्टुभ ऐणमैड पञ्चदश पञ्चदशात् गृह गृह भरद्वादृश्य प्रजापतिगृहीतया त्वयामा गृह्णामि प्रजापश्चाद् विष्वव्यजात्तस्य लक्ष वैष्वव्यशतं वर्णानिधाक्षराजगीवारिण्य जगत्यामक्षमात् शुक्लशुक्रात् सप्तदशः सप्तदशाद् वैलोकं वैलोकाद्विश्वामित्रय प्रजापतिगृहीतयात्मया गृह्णामि प्रजाभ्य इदमुत्तरात् सुभस्तस्य श्रोत्रगं संक्षौद्युभारद्युभस्पारद्य स्वाराय कविपुंसजय कविपुंसाद्वै राजं वै राजा प्रजापरितया श्रोत्रं गृह्णामि प्रजाभ्य इदमुपरिपदिनः पङ्के पङ्के ृणवत्रयस्त्रिनुषात्रणवत्रयस्त्रिनुषाभ्याम क्वरदेवतेशाः क्वरदेवताभ्याम् विश्वकर्म्य प्रजापतिगृहीतया त्वजावाचम् गृह्णामि प्रजाभ्यः रागे ऋषाम् वसन्तदतो नामज्ञ देवता ब्रह्मद्रविणम् द्रमत्सो वस्तौ पञ्चदशवत्तद्रमयः कृतवयानाम् पुरो वातोवादस्थानघनिर्दक्षिणादिशाम् एष्णवतोनामिन्द्रो देवताः क्षत्रन्द्रविणम् पञ्चदशस्तोमस्सौ सप्तदशवत्तयत्यवाग्मयस्त्रेतायानाम् दक्षिणा वातोपादस्त्वप्रदेशे दिशाम् भारतोनाम् विश्वेते देवताविद्रविणगुं सप्तदशस्तो स्वभुवेदपि सवर्तरिवत्सोजानां पश्चात् वातो नूनाम् वरुणो देवता पुष्टन् द्रविणमेक विवंशस्त्वमस्त्वपुत्र नववर्तनिस्तुर्यवाद्वय स्कन्दोजानामुत्तरादः प्रत्तरिवृतोणवस्त्वामस्त्वपुत्रयस्त्रिंशवर्त्रनिष्ठवान् द्वयो विधोरजानाम् परे परे ते हताम् तु ते नो बन्त्वस्मिन् ब्रह्मन्नस्मिन् क्षत्रे परोधायामस्मिन् कर्मन्नस्याम् देवहोत्या ध्रुवक्षतिर्ध्रुवयो निर्ध्रुवासिद्ध्रुवाय्यो निवासीनसाध्या मुक्षस्य केकम्प समम् पुरत्वा रश्विनाः मिहत्वा एदक्षे दक्षपिते हदे जत्रा पृथिवी बृहदेवासम् विशस्वपिते वैधितो न वाोगादयता मिहत्वा पुरागिलेव सुमतेव योधायन्नावद्भबहुलम् शरीरम् आपामजन्तजम् बाधमाना राजःपोषयज्ञपति मा भजन्ते सुर्थे यजमानायपोषमस्मिनाः धर्योधादेता विहत्त्वा अग्नेः पुरेशमसिदर्विणा नेतान्ता विष्मे अभिरिणन्तु देवाः सोमपृष्ठाभिधमये प्रजापदस्मैत्र विना विदस्वास्मिनाः भर्योदानेता विहत्त्वा शिवमोर्धा च पृथिव्यानाभिर्मिष्टम्भरे दिशामधिपत्ते भुवनानाम् ओर्म्यद्रप्सो अपामसि विश्वकर्मा धर्षिरश्मिना धर्योदाेण विषक्ताः सजोर्दुभिश्चजोर्विधाभिः सजोर्वसभिः सजोरुद्रैस्तजोरादित्ये सजोर्विश्वे देवै सजोद्देवै स योर्देवे वयो नाथैरमये द्वा वैश्वाननाराश्विना भर्योदानयदामि हत्वा प्राणम् मे पाह्यपानम् मे पाहि ज्ञानम् मे पाहि चक्षुर्मुर्व्या विभाहि श्रोत्रम् मे श्लोकयापस्मिन्वौषधेर्यन्वद्यभाष्पा चतुष्पादव निवो वृष्टिमेरया निर्वयः स्पृष्टुच्छन्दत्यवाद्मयो विराच्छन्दः पञ्चानिर्वयो गायत्रे छन्दश्च भत्सो वय पुष्पहाछन्दस्तु यवाद्मयो मृष्टुप्छन्दः पष्ठवाद्मयो मृगदेछन्द मुक्षा वयः स्वतो बृहवेछन्दोमयः कगुच्छन्दो धेनुर्वयो जगते छन्द धर्वान्वयः पङ्क्तिच्छन्द भस्तो वयो विफलं छन्द वृष्टर्वयो विशालन् छन्दः पुरुषो योधिष्ठन्दस्य गुम्भो वयश्च तिष्ठन्दो विष्टम्भो वयोऽधिपतिच्छन्दः क्षतम् वयोमयम् छन्दो विश्वकर्मा वयः परमेष्ठे छन्दो मोर्धा वयः प्रजापतिच्छन्दः इन्द्राग्ने अव्यथमानामिष्टकान् दृगो हदम् युवम् पृष्ठेरद्यावापृथिवे अन्तरिक्षम् च विभाषताम् श्वकम्मा प्राणादयत्वन्तरिक्षस्य पृष्ठे बृहस्पदे प्रथस्पदे भास्पदे सोरिमपेमायाभ्याम्भापृथिवी भोर्वन्तरिक्षमन्तरिक्षै यच्छान्तरिक्षं दृगौ हान्तरिक्षम् वाहि पानाय ज्ञानाय गानाय प्रतिष्ठायै चरित्राय ुभाषीप्रा चेत् मिलाटिरक्षिनादिकृते चेति स्वराढस्तुजे चेदिक्यतिबृहदेतिकायम् मे पाहि प्राणम् मे पाक्यमाणम् मे पाहि मा छन्द प्रमाछन्दः प्रतिमा छन्दस्तेविश्छन्दः पञ्चश्छन्द उष्ण्यहाछन्द बृहजे छन्द हृष्ट्छन्द विराच्छन्द गायत्रे छन्द स्पृष्टुच्छन्द जगति छन्दः पृथिवे छन्दोन्तरिक्षन्द व्योश्छन्दस्तमाश्चन्द नक्षत्राभिछन्द मनश्छन्द वाक्छन्द कृषिश्छन्द हिरण्यच्छन्द ्यर्देवतावातो देवता सूर्यो देवता चन्द्रमा देवता वसवो देवता देवता नित्या देवता विश्वे मूर्धादिना ध्रुवादिधरुणा यन्त्रिजमित्योर्जे त्वा कृष्ये ध्रुवादिधरणी धर्त्यशिधरीत्यायुषे वर्तसे त्वसे त्वापरायत्वा आशस्त्रभान्तः पञ्चदशोऽ व्योमसप्तदश प्रोक्तदशस्तपो नवदशोऽभिवर्तस्त जिगुंसो भरणरेकविपुंसो वर्त द्वा विपुंसम्भरणस्त्रयो विपुंशो यो नश्चतुर्विगुंसो घर्भा पञ्च विपुंस भोजस्त्रिणवत्रेक धर्पश्च <Sess> द्रष्टामः <dhapras -todha> <-maha> भागोदिदेक्षाया आधिपत्यम् ब्रह्मस्पदम् प्रभुत्स्तो म इन्द्रश्च भागो जामाधिपत्यम् क्षत्राज्ञस्पदम् पञ्चदशस्तोमो दशक्षताम् भागो जिधातुराधिपत्यम् चरित्रज्ञस्पृदकम् सप्तदशस्तोमा मित्रश्च भागादिवर्णश्चाधिपत्यम् दिवो वृष्ट्यर्वादा भागोदिरुर्ग्राणामाधिपत्यम् चतुष्पास्पदञ्चतुर्विपुंशस्तोमादित्यानाम् भागो च मरुतामाधिपत्यम् गर्भाः स्मृताः पञ्चविपुंशस्तो मोद्रेणस्तदमिदर्भागोदि बृहस्पदेराधिपत्यगुं समेतेषस्मृता चतुष्टोमस्तोमो यामानाम् भागो वाजावानामाधिपत्यम् प्रजास्तदा चतुश्चत्वारि पुंशस्त्वमरुभूनाम् भागो विश्वेनाम् देवानामाधिपत्यम् भूतम् निशामान्तज्ञस्तुतन्तयस्त्रिपुम्शस्तो मह एकयास्तुवद प्रजाधीयन्त प्रजापतिरधिपतिराधे त्रितुभिरस्तुवद ब्रह्मासृज्य ब्रह्मणस्पतिरधिप्रजराधेत् पञ्चभिरस्तुवद भूतान्यसृज्यन्त भूताधातिरधिपजराधेत् सप्तभिरस्तुवद सप्तयो सृज्यन्त धाताधिपजराधे नवभिरस्तुवद पितरो सृज्यन्तादितिरधिपत्याकादशभिरस्तुवदत्तवो सृज्यन्तार्थवोऽपजराधे त्रयोदशभिरस्तु सा असृज्यन्त संवत्सरोऽधिपजराधे पञ्चदशभिरस्तु पद क्षत्रमसिज्यतेन्द्रोऽधिपजराधे सप्तदशभिरस्तुपदपशमो सिजन्त बृहस्पतिरधिपजराजि नवदशभिरस्तु परिहोद्रार्यापसिज्येतामहोरात्रे अधिपयीया सामेकविगु सत्यास्तु पदेकशभा पशवा सिज्यन्तवशोऽधिपजराजे त्रयो विगुशत्यास्तु पद क्षत्र पशमोऽर्जन्त पालाधिपदिराधे पञ्चविंशत्यास्तु वदारण्या पशवोऽन्त वायुरधिपदिराधे सप्तविंशत्यास्तु वद्या वा पृथिवी यैताम् वसवो रुद्रा आदित्यायन्तेजामाधिपत्यमाधे नवविंशत्यास्तु वदवस्पदयो सृज्यन्त सोमाधिपतिराधे एकत्रिकंशदास्तु वद प्रजा असृज्यन्तया वा नाञ्चाय धिपत्यमाधे त्रय त्रिगुधरास्तुवदभूतान्यजापः परभेष्ठ्यधिपतिरायात्मसमाप्य उच्छकन्तरस्याञ्चरतिप्रविष्टा तथोर्जचारणमगजनित्रे त्रयनेनाम् महिमानः सजन्ते छन्दस्पति कुटसापेऽपि शाने समानय्यमानिमनुसञ्चरन्ति सूर्यपत्रे विचरद प्रजालते येदम् क्रण्वाणे अजरे भूरिरेतसा पन्था मनुस्रा कुस्तजासो अनज्यो विषादुः भजामे कालक्षत्यो जमेका प्रतमेका रक्षतिरेव यूनाम् यदुष्मा अभवजादी जालेज्ञस्य पक्षामुषया भवन्ति गायत्रेयम् द्रष्टुभम् जगदेम प्रष्टुभम् गृहषड्कैय्यम् जानास्वपदाफलम् विजम् पञ्च षड्धाता विदधा विदय्यतासा विश्व पञ्च तासा भयन्ति प्रगमेऽहम् च राणालोपाकृतवोपसानाः त्रिविंशत्सारुपयन्ति निष्कृतगुंसपानम् चैकम्पतिमुञ्चमानाः स्तन्वदे कवचप्रजानदे मध्ये चन्दन परिणन्ति भास्मती योजपदे प्रतिमुञ्चते न होरात्रिदेवी घोर्यस्य व्रतानि विपश्यन्ति पदवो जायमाना नानारूपा मातुरस्या उपस्थे एकाष्टगादपदातप्यमाना जानगर्भम् मिमानमिन्द्रम् तेन दस्योन्विदहन्तदेवाहन्तासुरा नाम भवेभिः अनानुजामनुजाम् सत्यम् वदन्तिम्भिच्छादमस्य तु मदो यथा योजमन्यावो अन्यामधिमा प्रयुक्ता आभोन्मम तु मदो विश्ववेला आष्टप्रतिष्ठामविदद्धिगाधम् बहुजादमस्य तु मदो यथा योजमन्यावो अन्यामदिमा प्रयुक्ता पञ्चव्यष्पेरणपञ्चदोहागान् पञ्चलान्मे मृतमो न पञ्च पञ्चदशः पञ्चदशेन कृताः समानमोहोऽर्थेरभिलोकमेकम् यतस्य गर्भ प्रथमा व्योषुष्यमान्यैकामभिमानम् विभक्ति सूर्यस्यैकाचरस्थितेन धर्मस्यैका च वितैकान्निगच्छति या प्रथमा व्यौच्छत्साधेन पयस्पति सा न पयस्पतिवोत्तरामुत्तरादुसमाः शुक्रणानपधाज्यो निरागाः ईश्वरोपासीर समानमथर्गस्व पश्चमाना बिभ्रते जलामजलपुषागाः धूनाम् पत्नीः प्रथमे गमागा गन्धा नेत्रे च नेत्रे प्रजाना सर्वभ्यग्ने जाताम् प्रणुधानः सपत्नाम् प्रत्यजाताम् जातवेदोऽनुदस्प अस्मै दे दे हे सुमना अहेरम् तव स्याकम् सर्वम् त्रिपरोध उद्भिदे प्रणुदानस्य पत्राम् प्रत्यजाताम् जातवेदोऽनुदस्व अधिना ब्रोहितुमनस्य मानो वयज्ञस्याः प्रणुदानस्य पत्रा चतुश्चत्वारिपुंशस्त्व भवत्वा ग्रहिणवं षोडशस्त्व भवो च ग्रहिणम् छन्द परिवश्चन्दशम्भोन्द परिभोश्चन्द आर्च्छन्द मनश्चन्द व्यधश्चन्द सिन्धुश्चन्द समुद्र छन्दस्थलिनछन्द संयच्छन्द्रियच्छन्द बृहच्छन्दो रथन् तरछन्दा निकायच्छन्दा विभधच्छन्द गिरश्छन्दा भ्रजच्छन्द स्रष्टुप्छन्दो रष्टुप्छन्दः प्रगुच्छन्द्रगुच्छन्दः काव्यन्द भुवन्द न्दो क्षरपण्डिच्छन्दो विष्टालपण्डिच्छन्दः क्षुरो हृद्वाच्छन्दः प्रच्छन्दः पक्षश्चन्द वे पश्चन्दो बरिवश्चन्दो वयश्चन्दो वयस्कृच्छन्दो